अथ सप्त पञ्चाशः सर्गः कथयित्वा तु दुःखार्तः सुमन्त्रेण चिरं सः रामे दक्षिणकूलस्थे जगामस्वगृहम् गुहः भरद्वाजाभिगमनम् प्रयागे च सभाजनम् आगिरेर्गमनम् तेषाम् तत्र स्थैरभिलक्षितम् अनुज्ञातः सुमन्त्रोऽथ अयोध्यामेव नगरीम् प्रययौ गाढदुर्मनाः सवनानि सुगंधीने सरितश्च सरांसि च पश्यन्यत्तो ययौ शीघ्रम् ग्रामाणि नगराणि च ततः सायाह्नसमये द्वितीयेऽहनिसारथिः अयोध्याम् समनुप्राप्य निरानन्दाम् ददर्शः स शून्यामिव दृष्ट्वा परमदुर्मनाः सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः कच्छिन्न स गजासाश्वासजनास जनाधिपा क्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः तेषाम् शशंस गङ्गायामहमापृच्छ्य राघवम् अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना ते तीर्णा इति विज्ञाय बाष्पूर्णमुखा अहो अहोधिगिति निःश्वस्य हारामेति विचुक्रुशुः शुश्रावचवचस्तेषाम् वृन्दम् वृन्दम् च तिष्ठताम् हतास्म खलु येनेह पश्याम इति राघवम् दानयज्ञविवाहेषु समाजेषु महत्सु च न द्रक्ष्यामः पुनर्जातु धार्मिकम् राममन्तरा किम् समर्थम् जनस्यास्य किम् प्रियम् किम् सुखावहम् इति रामेण नगरम् पित्रेव परिपालितम् वातायनगतानाम् च राममेवाभितप्तानाम् शुश्रावपरिदेवनाम् सराजमार्गमध्येन राजमार्गमध्येन सुमन्त्रः पिहिताननः यत्र राजा दशरथस्तदेवोपयौ गृहम् सोमतीर्यरथाीघ्रम् राजवेश्म प्रविश्य च कक्ष्याः सप्ताभिचक्राममहाजनसमाकुलाः हाँ हाँ हा हाकारकृता नार्यो रामादर्शनकर्शिताः आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः अन्योन्यमभिवीक्षन्ते व्यक्तमार्ततरा स्त्रियः ततो दशरथस्त्रीणाम् प्रासादेभ्यस्ततस्ततः रामशोकाभितप्तानाम् मन्दम् शुश्रावजल्पितम् सः रामेण निर्यातो विना राममिहागतः सूतः किम् नाम कौसल्याम् क्रोशन्तीम् प्रतिवक्ष्यति यथा च मन्ये दुर्जीवमेवम् न सुकरम् ध्रुवम् आच्छिद्यपुत्रे निर्याते कौसल्या यत्र जीवति सत्यरूपम् तु तद्वाक्यम् राजस्त्रीणाम् निशामयन् प्रदीप्त इव शोकेन विवेशसहसा गृहम् स प्रविश्याष्टमीम् कक्ष्याम् राजानम् दीनमातुरम् पुत्रशोकपरिद्योनमपश्यत्पाण्डुरे गृहे अभिगम्यतमासीनम् राजानमभिवाद्य च सुमन्त्रो रामवचनम् यथोक्तम् प्रत्यवेदयत् स तूष्णीमेव तच्छ्रुत्वा राजा विद्रुतमानसः मूर्च्छितोऽन्यपतद्भूमौ रामशोकाभिपीडितः ततोऽन्तः पुरमाविद्धम् मूर्छिते पृथिवीपतौ उच्छ्रित्य बाहू चुक्रोश नृपतौ पतिते सुमित्रया सुमित्रयातु सहिता कौसल्या पतितम् पतिम् सतदा वचनम् चेदमब्रवीत् इमम् तस्य महाभागदूतम् दुष्करकारिणः वनवासादनुप्राप्तम् कस्मान्न प्रतिभाषसे अदे मम नयत्र उत्तिषसम तेस्त शोके न सैत्सहायता दे यद्राम पृछसी सारथि नेहतिषति कैकेय विश्रद्ध प्रतिभाष्यताथो महाराज कौसल्या शोकलालसा धरण्यापताशु बा विपलुतभाषिणी विलपन्तीम् तथा दृष्ट्वा कौसल्याम् पतिताम् भुवि पतिम् चावेक्ष्यताः सर्वाः समन्तादृरुदुः स्त्रियः ततस्तमन्तः पुरणादमुत्थितम् समीक्ष्य वृद्धास्तरुणाश्च मानवाः स्त्रियश्च सर्वा रुदुः समन्ततः पुनरेव सङ्कुलम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये अयोध्या सप्तपंचाश सर्ग